शान्तोग्योपनिषत् अध्यायं सिक्स् खण्डं वन् ॐ स्वेदके दुर्हारुणेय आसतगुंहपिदोवाचेदकेदो वसब्रह्मचर्यं न वै सौम्यास्मत्कुलीनो ननुच्य ब्रह्म बन्धुरिव भवतीति सः द्वादशवर्ष उपेत्य चतुर्विंशति वर्षः सर्वान्वेदानधीत्य महामना अनुचानमानीस्तेयायतघं कपितो वाचस्वेदकेतो यन्नो सोम्येदं महामना अनुचानमानीस्तब्धोऽस्युत मादेशमप्राक्ष्यः येनाश्रुतगं श्रुतं आदेशो भवतीति यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं चारम्भं विकारो नामधेयं मृत्तिकेत्येव सत्यं यथा सौम्यैकेन लोहमणिना सर्वल्लोहमयं विज्ञातगं स्याद्वाचारं भणं विकारो नामधेयल्लोहमित्येव सत्यम् यथा सौम्यैकेन नखनिकृन्दनेन सर्वं कार्ष्णायसं विज्ञातगुं स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवगुं सौम्यस आदेशो भवतीति नवैनूनं वै नूनं षुर्यध्ये दधवेदिष्यन् कथं मे नावक्ष्यन्निधि भगवागुंस्त्वेव मे तद्ब्रवीत्विति तथा सोम्ये दिहोवाच अध्यायं सिक्स् टु सदेव सोम्येदमग्र आसीदेकमेव द्वितीयं तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीय तस्मादसदः सज्जायत कुतस्तु खलु सौम्यैवघृस्यादिति होवाचकथमसदः सज्जायेतेदि सत्त्वेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् तदैक्षद बहु स्यां प्रजाये ये दि तत्तेजोऽसृजद तत्तेज ऐक्षद बहु स्यां प्रजाये ये दि तदपोऽसृजद तस्माद्यत्र क्वचोचति स्वेददेवा पुरुषस्तेजस एव तदध्यापो जायन्ते का आप ऐक्षन्दभ्व्यस्यामप्रजाये महीदिता अन्नमसृजन्त तस्माद्यत्र क्व जवरिषदि तदेव भूयिष्ठमन्नं भवत्यभ्य एव तदध्यन्नाद्यञ्जायते अध्यायं सिक्स् खण्डं तेषां खल्वेषाम्भूतानां त्रीण्येव बीजानि भवन्त्याण्डजन् जीवजमुद्भिज्जमिति सेयं देवतैक्षतहन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम रूपे व्याकरवाणीति तासां त्रिवृदन्त्रिवृदमेकैकाणीति शेयं देवदेमास्तिस्रो देवदा अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृदन्त्रिवृत मे कैकामकरोत् यथा तु खलु सौम्ये मास्त्रिस्रो देवतास्त्रिवृत्रिवृदेकैका भवति तन्मे विजानीहीति अध्यायं सिक्स् खण्डं फोर् यदग्ने रोहितगुं रोपन्तेजसस्तद्रूपै यच्छुक्लं तदपा यत्कृष्णन् तदन्नस्यापा गादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयन्त्रीणि रूपाणीत्येव सत्यम् यदादित्यस्य रोहितगं रोपन्तेजसस्तद्रूपै यच्छुक्लं तदपाह्यत्कृष्णन् तदन्नस्यापागादादित्यादादित्यत्वम् चारम्भणं विकारो नामधेयन् त्रीणिरूपाणीत्येव सत्यम् यच्चन्द्रमसो रोहितगं रूपं तेजसस्तद्रूपै यच्छुक्लन्तदपा यत्कृष्णन् तदन्नस्यापाघाच्चन्द्राच्चन्द्रत्वम् जाजृम्भणं विकारो नामधेयन्त्रीणि रूपाणीत्येव सत्यम् यद्विद्युदोरोहितगमरूपं तेजसस्तद्रूपै तदन्नस्यापाद्विद्युतो विद्युत्वं वाचारम्भणं विकारो नामधेयन्त्रीणिरूपाणीत्येव सत्यम् ये दद्धस्म वै तद्विद्वागुंस महाशाला महाश्रोत्रिया ननोऽ मम तमविज्ञादमुदाहरिष्यति दिह्येभ्यो विधाञ्चक्रुः यदुरोहितमिव भोदि तेजसस्तद्रूपमिति तद्विधा चक्रुर्यदुशुक्लमिव भोदित्यभागुं रूपमिति तद्विधा चक्रुर्य कृष्णमिवा भोदित्यन्नस्य रूपमिति तद्विधाञ्चक्रुः यद्वद्विज्ञादमिवा भूदित्येतासामेव देवतानागुंसमास इति तद्विधाञ्चक्रुर्यथा खलु नु सोम्ये मास्तिस्रो देवता पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवति तन्मे विजानीहीति अध्यायं सिक्स् खण्डं फैव् अन्नमसिदन्त्रेथा विधीयदेतस्य यष्ठविष्ठो धाधुस्तत्पुरीशम्भवति यो मध्यमस्तन्मागुंसयो निष्ठस्तन्मनः आपः पिता त्रेधा विधीयन्ते तासा यस्तविष्ठो धाधुस्तन्मोत्रं भवति यो प्राणः ते जोषिदन्त्रेधा विधीयते तस्य यस्तविष्टो धातुस्तदस्ति भवदि यो मध्यमः समज्जा यो निष्ठसावाक् अन्नमय गं हि सौम्यमन आभो एवमा भगवान्विज्ञापयत्विति तथा सोम्ये दिहोवाच अध्यायं सिक्स् खण्डं सिक्स् दघ्नः सौम्यमध्यमानस्य योनिमास ऊर्ध्वस्समुदिशति तत्सर्पिर्भवति एवमेव खलु अपागं सौम्यपीयमानायोणिमास ऊर्ध्वस्समुदिशदिशप्रणो भवति तेजसोम्यामानस्य यो निमास ऊर्ध्व समुदिशदिशा भवति अन्नमयगं हि सौम्यमन मयः प्राणस्तेजो मयि वागिधिभूय एवमा मा भगवान् विज्ञापयत्विधि तथा सोम्ये दिहोवाच अध्यायं सिक्स् खण्डं सेवन् षोडचकलः सौम्यपुरुषः पञ्चदशहानि माशि कममपःपि भावो मयः प्राणोनपि पदो विच्छेत्स्यद इति नमुपससाद पञ्चदशाहानि नाशादहैनमुपससाद किं ब्रवीमि भो इत्यर्चसौम्य न वै मा प्रदिभान्ति भो इति तगुंहोवाच यथा सोम्य महतोऽभ्याकितस्यैकोऽङ्कारोदमात्रः परिशिष्टस्यात्तेन ततोऽपि न देवगुं सोम्यते षोडशानां कलानामेका कलादिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्य शानाधमे विज्ञास्यसीति सः साधहैनमुपससादतगुंह यत्किञ्च पप्रच्छ सर्वगुंहप्रदीपेते तगुं कोवाच यथा सोम्यमहतोऽभ्या हृतस्यैगमहङ्कारं कद्योदमात्रं परिशिष्टन्तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहुदहेत् एव गुं सोम्यदे षोडशानां कलानामेकाकलादि शिष्टाभूत्सान्ोपसमाहिदप्राज्वाली तह्यैतर्हि वेदाननुभवस्यन्नमयगं हि सौम्यमन आपो मयः प्राणस्तेजो मयि वागिदि खण्डम् एय् उद्दालको हारुणिश्वेतकेदुं पुत्रमुवाच स्वप्नां दं मे सौम्य विजानीहिदि यत्रैतत्पुरुषस्वपिति नाम सदा सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेन स्वपितीत्या चक्षते स्वगुंह्यपीतो भवति सयथा शकुनिसूत्रेण प्रबद्धो दिशं दिशम् पदित्वान्यत्रायस्तनमलब्ध्वा बन्धनमेवोपश्रयदयैवमेव खलु सौम्य तन्मनो दिशन् दिशम्पदित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनगृंहि सौम्यमन इति अशनापि पास्ये मे सौम्य विजानीहिदि यत्रैतत्पुरुषो शिशिशदि नामापयेव एव तदशि तन्नयन्ते तद्यथा गोनायोनायः पुरुष नाय इत्येवं तदप आचक्षदेशनायेदि तत्रैस्तच्छुङ्गमुत्पदितगुं सौम्यविजानीहि नेदममूलं भविष्यतीति तस्य क्व मूलगु स्यादन्यत्रान्ना देवमेव खलु सौम्यान्नेन शृङ्गेनाभोमूलमन्विच्छाद्भिः सौम्य शृङ्गेन तेजो मूलमन्विच्छ तेजसा सौम्य शृङ्गेन सन्मूलमन्विच्छ सन्मूलाः सौम्ये मास्सर्वाः प्रजाः सदा यतनाः सत्प्रतिष्ठाः अध यत्रैतत्पुरुषः पिपा सदि नाम ते जेव तत्पेदन्न यदे तद्यथा गोनायो पुरुषनाय इत्येवं तत्ते ज आचष्ट उदन्येदि तत्रैदेव शृङ्गमुत्पदितगुं सौम्यविजानीहि नेदमूलं भविष्यतीति तस्य क्वमूलस्यादन्यत्राद्भ्योद्भिः तेजो तेजोमूलमन्विच्छ तेजसा सौम्यशृङ्गेन सन्मूलमन्विच्य सन्मूलाः सौम्ये सन्मूला मा सर्वाः प्रजा सदाय तना सत्प्रतिष्ठा यथानु खलु मास्तिस्रो देवता पुरुषं प्राप्य त्रिवृत्रिवृदे कैका भवदि तदुक्तं पुरस्ता देवभवत्यस्य भवत्यस्य सौम्यपुरुषस्य प्रयदो वाङ्मनसि सम्पद्यते मनःप्राणे प्राणस्तेजसि ते जःपरस्यान् देवतायाम् सय एषोणिमैतदात्म्यमिदगुं सर्वं तत्सत्यगुं आत्मा तत्त्वमसि स्वेदखेदो यदि भूय एव मा भगवान् विज्ञापयत्विति तथा सौम्ये यथा सौम्यमधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणागुं रसान्समवहारमेकथागुं रः सङ्गमयन्ति ते यथा तत्र न विवेकल्लभन्ते मुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव कलु सोम्ये मा सर्वा प्रजा सदि सम्पद्यन विदुः सदि सम्पद्यामः इति त इह व्याक्रो वा शिगुम्हो वा वृको वा वराहो वा कीडो पदङ्गो वा दघुंशोवा मशको वा यद्यद्भवन्ति तदा भवन्ति सय सर्वं तत्सत्यगुं स तत्त्वमसि स्वेदगेदो यदि भूय एव मा भगवान् विज्ञापयत्विदि तथा सौम्ये दिहोवाच अध्यायं सिक्स् खण्डं टन् इमा सौम्यनद्यः पुरस्तात् प्राच्यस्यन्दे पश्चात् प्रतीच्यस्तात् समुद्रात् समुद्रमेवापि यन्दि समुद्र एव भवन्दिता यधा तत्र न विदुरि यमहमस्मि यमहमस्मीति एवमेव खलु सोम्ये मा सर्वा प्रजा सद आगत्य न विदुः सद आगच्छामह इदि द वासि गुंहो वा वृको वा वराहो वा कीडो वा पदङ्गो वा दगुंशो वामशको वा, वा, वा यद्यद्भवन्ति तदा भवन्ति स य एषो सर्वं तत्सत्यगुं स आत्मा तत्त्वमसि स्वेदखेदो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सौम्ये दिहोवाच अध्यायं सिक्स् खण्डम् इलवन् अस्य वृक्षस्य यो मूलेभ्यः कन्याजीवन्स्रवेद्यो मध्येभ्यः कन्याजीवस्रवेद्भ्योऽग्रेद्भ्यः अन्याज्जीवन् श्रवेत्स एष जीवेनात्मनानुप्रभुदपे पीयमानो मोदमानस्तिष्ठति अस्य यदेकागं शाकाञ्जीवो जहात्यध सा शुष्यदि द्वितीयाञ्जहात्यध सा शुष्यदि शुष्यति सर्वं जगादि सर्वश्युष्यत्येवमेव खलु सोम्यविद्धिधिोवाच जीवापे दं वावकिले दं म्रियतेन जीवो म्रियदयितिशय येषो निमै सर्वं तत्सत्यगुं आत्मा तत्त्वमसि स्वेदखेधो युधि भूय एवमा भगवान् विज्ञापयत्विति तथा सोम्येधिोवाच अध्यायं सिक्स् खण्डं ट्वेल्व् न्यग्रोदफलमद आहरेति इदं भगव इति भिन्दीदि भिन्नं भगव इति किमत्र पश्यसीत्यन्व्य इवेमाधाना भगव इत्यासा मङ्गैकां भिन्दीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति तगुंहोवाच यं वै सौम्यैदमणिमानननिभालयस ये वै सौम्यै शोणिम्न एवं महान्यग्रोधस्तिष्ठति श्रद्धत्स्व सौम्ये धिषयये सत्यगं स आत्मातत्त्वमसि स्वेदगेदो यदि भूय मा भगवान् विज्ञापयत्विति तथा सौम्ये दि उवाच अध्यायं सिक्स् खण्डं लवणमेदुदगे वाध मादूपी दधाद सख तथा अंकतदा, होवाच यदोषा लवणमुदगे यथा विलीनमेवाङ्गास्यान्ता दाचा मेदि कथमिति लवणमिति मद्यादाच मेदि कथमिति लवणमित्यन्तादाचा मेदि कथमिति लवणमित्यभिप्रास्यै तदधमोपसीदधा इति तद्ध तथा चकार तच्छ्वद् संवृतदेतगुं कोवाचात्र भावकिल सत्सौम्यननिभाल यसेऽत्रैव किलेति स येषो निमैददात्म्यमिदगुं सर्वं तत्सत्यगुं स आत्मातत्त्वमसि स्वेदघेदो ेव मा भगवान् वेज्ञापयस्विधि तथा सौम्ये 14 अध्यायं सिक्स् खण्डं फोर्टीन् यथा सौम्यपुरुषङ्गन्धारेभ्योऽभिनद्धाक्षमानीय तन्ततोदिजने विसृजेत्स यथा तत्र प्राङ्वो दं वा धरां वा प्रत्यङ्गध्मायी ताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेदान् दिशं गन्धारेदान् दिशं व्रजेति सग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धाराणे गोपसम्पद्येतैव मे भेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरय्यावन् विमोक्ष्येध सम्पत्स्य इति स य सर्वं तत्सत्यगुं स आत्मा तत्त्वमसि स्वेदघेदो इति भूय एव भगवान् विज्ञापयत्विति तथा सौम्ये दिहोवाच अध्यायं सिक्स् खण्डं फिफ़्टीन् पुरुषकं सौम्योतोपतापिनं ज्ञादयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्य दे मनःप्राणे प्राणस्तेजसि तेजः परस्यान्देवतायां तावज्जानाति अध यदास्य वाङ्मनसि सम्पद्य दे मनःप्राह्णे प्राणस्तेजसि तेजःपरस्यान्देवताया मथ नजानाति सयेषो निमै दधात्म्यमिदगुं सर्वं तत्सत्यगुं स आत्मा तत्त्वमसि स्वेदकेदो यदि भूय एव मा भगवान् विज्ञापयत्विति 6, सौम्ये 16 उवाच अध्यायम् शिक्स, सिक्स् खण्डं सिक्स्टीन् पुरुषगं सौम्योदहस्तगृहीधमानयन्त्यपकार्षीत् स्थेयमकार्षीत्परशुमस्मै तपते दिश यदि तस्य कर्ता भवति तदये गुरुदे सो नृताभिसन्धो नृदे नात्मानमन्तर्धाय परशुन्तप्तं प्रदिगृह्णादि स दह्यते दहन्यते अध यदि तस्याकर्ता भवति तथैव सत्यमात्मानं गुरुदे स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुन्तप्तं प्रदि गृह्णादिश न दह्यतेऽधमुच्यते स यथा तत्र नादाह्येतैददात्म्यमिदघुं सर्वं तत्सत्यघुं स आत्मा तत्त्वमसि स्वेदगेदो इति तद्धास्य विजज्ञा विधि विजज्ञाविधि इति छान्दोग्योपनिषदे षष्ठोऽध्यायः ओ